ब्रह्माण्डपुराणं मध्यभागम् अध्यायं सिक्स्टिसिक्स् भार्गवचरिते अमावसुवंशानुकीर्तनं सूत उवाच सोमस्यदु बुद्धः पुत्रो बुद्ध यद् तेजस्वी दानशीलश्च यज्वा विपुलदक्षिण ब्रह्मवादीप्रांतुरीुधिदुर्जय आहर्ताचाहोत्रा महीपति सत्यवाधर्मबुद्धि कावृतमुन अतीव त्रिषु लोकेषु रूपेणाप्रदिमोऽभवत् तं ब्रह्मवादिनं दान्तं धर्मज्ञं सत्यवादिनं उर्वशी वरयामास हित्वा मानं यशस्विनी तया स हावस्राजा दशवर्षाणि चाष्ट सप्त सप्त चाष्टौ च दश चाष्टौ च वीर्यवान् वनचैत्ररथे रम्ये तथा मन्दाकिनीतटे अलकायां विशालायां नन्दने च वनोत्तमे गन्धमादनपादेषु मेरुशृङ्गे नगोत्तमे उत्तरांश्च कुरून्प्राप्य कलाभग्राममेव कलाभग्राममेवच एतेषु वनमुखेषु सुरैराचरितेषु च उर्वश्या सहितो राजा रेमे परमया मुदा ऋषय ऊचुः गन्धर्वी चोर्वशी देवी राजानम् मानुषं कथम् उत्सृज्य तं च सम्प्राप्ता तन्नो दुष्कृतं सूत उवाच ब्रह्मशापाभिभूता सा मानुषं समुपस्तिदा आत्मनः शापमोक्षार्थं नियमं सा चकारतु अनग्नदर्शनं चैव अकामात् सहमैथुनं द्वौ मेषौ शयनाभ्यासे सा तावध्यवतिष्ठते घृतमात्रं तथाहारकालमेकं तु पार्थिव यद्येशसमयो राजन्यावत्कालश्च दृढः तावत्कालं तु वत्स्यामि येष न समय तस्यास्तं समयं सर्वं स राजा पर्यपालयत एवं स चावसत्तेन सफेलेनाभिगामिनी वर्षाण्यथ चतुष्षष्ठिम् तद्भक्रिया शापमोहिता उर्वशी मानुषम्प्राप्ता गन्धर्वाश्चिन्तयान्विताः गन्धर्वा ऊचुः चिन्तयध्वं महाभागा यथा सातु वराङ्गना आगच्छेत्तु तदो विश्वापसुर्नाम गन्धर्वसुमहामधिः जहारोरणकौ तस्यास्तत्पश्चात्सा दिवं गदा तस्यास्तु विरहेणासौ भ्रममाणस्त्वधोर्वशीं ददर्श च कुरुक्षेत्रे तया सम्भाषितोऽप्ययम् गन्धर्वानुपधावेति स तच्छक्रेथ ते ददुः अग्निस्थालीं तया राजा गतः स्वर्गं महारथः एकोऽग्निः पूर्वमासीद्वै ऐलस्तं त्री न कल्पयद एवं द्विजसतमा देशे पुण्यतमें च महर्षि राज्यम स कारयामास प्रयागे उत्तरे यामुने तीरे या मुने तीर प्रतिष्ठ महायशा तय पुत्र बभूवर्षिंद्रोपमतेजसा गन्धर्वलोके विदिता आयुर्धीमानमा वसुः विश्वा वसुश्रुतायुश्च कृतायुश्चो वर्षी सुताः अमावसोऽस्तु वै भीमो राजाथ विश्वचित श्रीमान् भीमस्य दायादो राजा काञ्चनप्रभः विद्वांस्तु काञ्चनस्यापि महाबला। सुहोत्रस्या भवज्जह्नुःकेशिनी गर्भसम्भवः प्रदिगत्य ततो गङ्गा विदधेया अर्मणि साधयामास तं देशम् भाविनोर्ध्वस्य दर्शनात् गङ्गया पाविदं दृष्ट्वा यज्ञवाडं समन्ततः सौहोत्रिरपि संक्रुद्धो गङ्गां राजाद्विजोत्तमाः तदा राजर्षिणा पीतां गङ्गां दृष्ट्वा सुरर्षयः उपनिन्योर्महाभाग दुहितृत्वेन जाह्नवीं यौवनाश्वस्य पौत्रीं तु कावेरीं जह्नुरावहत युवनाश्वस्य शापेन गङ्गार्धेन विनिर्ममे कावेरीं सरिदां श्रेष्ठ जह्नुभार्यामनिन्दिता जह्नुस्तु दयितं पुत्रं सुनकं नाम धार्मिकं कावेर्यां जनयामास अचकस्तस्य चात्मजः अचकस्य दुधायादो बलाकाश्वो महायशः बभूव मृगशीलशुष्यस्तस्यात्मज स्मृतः कुशपुत्रा बभूवुश्च चत्वारो देववर्चसः कुशाम्भक् कुशनाभश्च अमूर्तरयमो वसुः कुशिकस्तुतपस्तेऽपे पुत्रार्थी राजसप्तमः पूर्णे वर्षसहस्रे वै शतक्रदुरपश्यद तपसं दृष्ट्वा सहस्राक्षः पुरन्दरः समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः पुत्रत्वं कल्पयामास स्वयमेव पुरन्दरः गान्धिर्नामाभवत्पुत्रकौशिकः पाकशासनः पौरु कुत्स्यभवद्भार्या गाधेस्तस्यामजायत पूर्वं कन्या महाभागा नाम्ना सत्यवती शुभा तां गाधिपुत्रकामाय ऋचिकाय ददौ प्रभुः तस्याः प्रीतस्तु वैभर्ता भार्गवो भृगुनन्दनः पुत्रार् ते साधयामास चरुङ्गाधेस्तथैव च अथावोचत् प्रियां तत्र ऋचिको भार्गवस्तदा उपभोज्यश्चरुरयं त्वया मात्रा च शुभा तस्या जनिष्यदे पुत्रो दीप्तिमान् क्षत्रियर्षभः अजेयः क्षत्रियैर्युध्ये क्षत्रियर्षभसूदनः तवापि पुत्रं कल्याणि धृतिमन्दं तपोद्धनम् शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यदि एवमुक्त्वा तु भार्यामृचीको भृगुनन्दनः तपस्यभिरतो नित्यमरण्यं प्रविशेषः गाधिस्सदारस्तु तदा ऋचिकाश्रममभ्यगात तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः चरुद्वयम् गृहीत्वाद् ऋषे सत्यवती तदा भर्तोर्वचनमव्यग्रा हृष्टा मात्रेण्यवेदयद मादादु तस्यै दैवैन दुहित्रे स्वचरुं ददौ तस्याश्चरुमधा ज्ञानादात्मनः सा चकार गर्भं क्षत्रियान्धकरं शुभम् धारयामासीप्तेन वपुषा खोरदर्शनं तामृचीकस्तदो दृष्ट्वा योगेनाप्यवमृश्य च तदा जनिष्यति हि पुत्रस्ते क्रूरकर्मादि दारुमः माता जनिष्यते चापि तथाभूतं तपोधनं विश्वं हि ब्रह्मतपसा मया तत्र समर्पिदं, एवमुक्ता महाभागा पर्त्रा सत्यवदी तदा प्रसादयामासपदिं सुधो मे नेदृश्यो भवेद् ब्राह्मणापशदत्व इत्युक्तो मुनिमब्रवीद् नैव सङ्कल्पितः कामो मया भद्रे तथा त्वया उग्रकर्मा भवेत्पुत्रः पिदुर्माधुश्च कारणात् पुनः सत्यवधिवाक्यमेव मुक्ता ब्रवीदिदम् येच्छं लोकानपि मुने सृजेधा किं पुनः सुतं शमात्मकमृजुं भर्तः पुत्रं मे सुव्रद यद्यन्यथानसख्यं वै कर्तुमेवं द्विजोत्तम ततः प्रसादम करोत तपसो बलाद, पुत्रे नास्ति बलादेनाशेषो मे पौत्रे वा त्वया यथोक् वचनम ताधा भद्रे भविष्य सत्यवदी पुत्रं जनयामा सगव तपस्यभिरतं दान्तं जमदग्निं शमात्मकं भृगोश्चरुविपर्यास्ये रौद्रवैष्णवयोः पुरा जमनाद्वैष्णवस्याग्नेर्जमदग्निरजायद विश्वामित्रं तु दायादं गाधिकुशिगनन्दनः प्राप्य ब्रह्मर्षि समतां जगामब्रह्मणावृतः साहि सत्यवती पुण्या सत्यव्रतपरायणा कौशिकीदुसमाख्यादा प्रवृत्तेयं महानदी परिसृता महाभागा कौशिकी वरा इक्ष्वागु वंशप्रभवो रेणुको नाम पार्थिवः तस्य कन्यामहाभाग कमली नाम रेणुका रेणुकायां कमल्यां तु तपो धृति समाधिना आर्चीको जनय मां चमदग्निसुदारुणम् सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगं रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् और्वस्यैव मृजीकस्य सत्यवत्यां महामनाः जमदग्निस्तपो वीर्या जज्ञे ब्रह्मविदाम्बरः मध्यमश्च शुनशे फश्शुनः पुच्छः कनिष्टकः विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथस्मृतः जज्ञे भृगुप्रसादेन कौशिकान्वयवर्धनः विश्वामित्रस्य पुत्रस्तु शुनःशेफो भवन्मुनिः हरिश्चन्द्रस्य यज्ञेतु पशुत्वे नियतः स वै देवैर्दत्तः विश्वामित्राय वै पुनः देवैर्दत्तः स वै भवद विश्वामित्रस्य पुत्राणां शुनशेफोऽग्रजस्मृतः मधुश्चन्दादयश्चैव कृतदेवौ ध्रुवाष्टकौ कच्छपःपूरणश्चैव विश्वामित्रसुतास्तुवै वै तेषां गोत्राणि कौशिका महात्त्मना पाथिवा देंवराधाशाज्यापण उदुम पास वातड्याल कायनचांद्रवा लोहिण्योरेणव तथा कार्यशवस्मृता बभ्रवः पणिनश्चैव ध्यानजभ्यास्तथैव च श्यामायना हिरण्याक्षास्सांकृता गालवा स्मृताः देवलायामदुदाश्च शालङ्गायनबाष्कलाः लालाढ्या बादराश्चान्ये विश्वामित्रस्य धीमतः ऋष्यन्दरविवाह्यास्ते बक भक् कौशिका स्मृताः कौशिका स्रुताश्चैव तदान्ये सैन्धवायनाः योगेश्वरस्य पुण्यस्य ब्रह्मर्षे कौशिकस्य वै विश्वामित्रस्य पुत्राणां शुनशे फोग्रजस्मृतः त्रिषद्वधिसुतश्चापि विश्वामित्रात् तथाष्टकः अष्टकस्य सुतो लौहि मया विषय ऊचुः किं लक्षणेन धर्मेण तपसेश्रुतेन वा ब्राह्मण्यं समनुप्राप्तं विश्वामित्रादिभिर्नृपैः येन येनाभिधानेन ब्राह्मण्यं क्षत्रिया गताः विशेषं ज्ञातुमिच्छामि तपसोदानतस्तथा ये मुक्तो वाक्यम्रवीदीदमद्रव्यूयज्तमान धर्मा कांक्षी यजदे न धर्म फलमश्नु जम्वा तथा तीव्र धन लोभारुश रागमोहान्विदोह्यन्ते पावनार्थं ददाति यः तेन दत्तानि दानानि ह्यफलानि तस्य धर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः एवं लब्ध्वा धने मोहा ददतो यचतश्चः संक्लिष्टं कर्मणा दानं न तिष्ठति दुरात्मनः न्यायागतानां द्रव्याणां तीर्थं सम्प्रतिपादनं हामाननपि सम्धाय यजते च ददाति च स तच्चदानं सुखोदयं दानेन भोगानाप्नोति स्वर्गं सत्येन गच्छति तपसादु सुतप्तेन लोकान्विष्टभ्यतिष्ठति सत्यं तु तपसश्रेयस्तस्मा गुरुस्मृतं श्रूयते हि तपःसिद्धाः विश्वामित्रो नरपदेर नरपधिर्मान्धासंकृधिकपिः काश्यश्च पुरुकुत्सश्च शलो आस्तिशेणोजमीढश्च भार्गव्योमस्तथैव च कक्षी वांश्चैवौ शिजश्च नृपश्च शिशिरश्च तथा रथान्धरशौनकश्च विष्णुवृद्धादयो नृपाः क्षत्रोप्येता स्मृता ह्येदे तपःसा येदे ये राजशयः सर्वे सिद्धिं तु महदीं गदाः अधज्ञर्ध्वं प्रवक्ष्यामि आयोर्वंशं महात्मनः इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीयपुवोद्धादपादे भार्गवचरिते अमावसु वंशानुकीर्तनं नाम षट्तमोऽध्यायः ॐ